तथैकोनसप्ततितमः सर्गः यमेव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरी भरतेनापि ताम् रात्रिम् स्वप्नो दृष्टोऽयमप्रियः युष्टमेव तु ताम् रात्रिम् दृष्ट्वा पुत्रो राजाधिराजस्य सुभृशम् पर्यतप्यत आयासम् विनयिष्यन्तः सभायाञ्चक्रिरे कथाः वादयन्ति तदाशान्तिम् लासयन्त्यपि चापरे नाटकान्यपरे स्माहुर्हास्यानि विविधानि च सतैर्महात्मा भरतः सखिभिः प्रियवादिभिः गोष्ठी हास्यानि कुर्वद्भिर्न हा। प्राहृष्यत सुहृद्भ्यः पर्युपासीनः किंसखेनानुमोदसे एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाचः शृणुत्वम् यन्निमित्तम् मे दैन्यमेतदुपागतम् स्वप्ने पितरमद्राक्षम् मलिनम् मुक्तमूर्ध्वजम् पतन्तमद्रिशिखरात् कलुषे गोमये ह्रदे प्लवमानश्च मे दृष्टः गोमये ह्रदे पिबन्नञ्जलिना तैलम् हसन्निव मुहुर्मुहुः ततस्तिलोदनम् भुक्त्वा पुनः पुनरधः शिराः तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवान्वगाहता स्वप्नेऽपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि उपरुद्धाम् च जगतीम् तमसेवसमावृता औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् सहसा चापि संशान्ता ज्वलिता जातवेदसः अवदीर्णाम् च पृथिवीम् शुष्कांश्च विविधाम् द्रुमान् अहम् पश्यामि विध्वस्तान् स धूमांश्चैव पीठे कार्ष्णायसे चैवम् निषण्णम् कृष्णवाससम् प्रहरन्ति स्म राजानम् कृष्णपिङ्गलाः त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः रथेन खरयुक्तेन प्रयातो दक्षिणामुखः प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी प्रकर्षन्ती मया दृष्टा विकृतानना एवमेतन्मया दृष्टमिमाम् रात्रिम्भयावः अहम् रामोऽथवा राजा लक्ष्मणो वामरिष्यति नरो यानेन यः स्वप्ने खरयुक्तेन अचिरात् तस्य धूम्रा ग्रञ्चितायाम् सम्प्रदृश्यते एतन्निमित्तम् दीनोऽहम् नव च प्रतिपूजये शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः न पश्यामि भयस्थानम् भयम् चैवोपधारये भ्रष्टश्च स्वरयोगो मे छाया चापगता मम जुगुप्सु इव चात्मानम् कारणम् इमाम् चतुस्वप्रगतिम् निशम्य हि त्वनेकरूपामपि तर्किताम् पुरा भयम् महत्त्वहृदयान्न याति मे विचिन्त्य राजानमचिन्त्य दर्शनम् इत्यादे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः